गरुडपुराणम् आचारकाण्डम् अध्यायम् टु हण्ड्रेड् अण्ड् तर्टि सिक्स् श्रीभगवानुवाच आत्मज्ञानम् प्रवक्ष्यामि शृणुनारदतत्त्वतः अद्वैतम् साङ्ख्यमित्याहुर्योगस्तत्रैकचित्तता अद्वैतयोगसम्पन्नास्तेमुच्यन्तेदि बन्धनाद अतिप्रारब्धमागामि कर्म नश्यदि बोधदः सद्विचारकुठारेण छिन्नसंसारपादपः ज्ञानवैराग्यतीर्थेन लभदे वैष्णवं पदम् जाग्रस्वप्नसुषुप्तं च मायात्रिपुरमुच्यते अत्रैवान्तर्गतं सर्वं शाश्वजे नाद्वये पदे नामरूपक्रियाहीनं सर्वं तत्परमम् पदम् जगत्कृत्वेश्वरोनन्दं स्वयमत्र प्रविष्टवान् वेदाहमेदम् पुरुषम् चिद्रूपम् तमसः परम् सोऽहमस्मीधि मोक्षाय नान्यः पन्था विमुक्तये hmm. श्रवणम् मननम् ध्यानम् ज्ञानानाम् चैव साधनम् यज्ञदानतपस्तीर्थवेदैर्मुक्तिर्न लभ्यते त्यागेन केनचिढ्यानपूजा कर्मादिभिर्यथा द्विविधम् वेदवचनम् कुरु कर्म त्यजेति च यज्ञादयो विमुक्तानाम् निष्कामानाम् विमुक्तये अन्धःकरणशुद्ध्यर्थमूच्युरेवत्र केचन एकेन जन्मनाज्ञानमुक्तिर्नद्वैदभाविनाम् योगभ्रष्टा कुयोगाश्च विप्रा योगिकुलोद्भवाः कर्मणा बध्यते जन्तुर्ज्ञानान्मुक्तो भवाद् भवेद आत्मज्ञानन्त्वाश्रयेद्वै अज्ञानं यदतोऽन्यथा यदा सर्वे विमुच्यन्ते कामा ये स्यहृदि स्थिताः तदा मृदत्वमापनोदि जीवन्नेव न संशयः व्यापकत्वात् कथं याधिको याधिक्व स याति च अनन्दत्वान्नदेशोऽस्ति कोप्यस्ति अद्वयत्वान्न कोऽप्यस्ति बोधत्वाज्जदाकुदः एकोद्दिष्टं यदन्यस्य मदिवा गदिसंस्थितिं कथमाकाशकल्पस्य गदिरागदिसंस्थितिजाग्रस्वप्नसुषुप्तं च मायया परिकल्पितं वस्तु तैजसकं प्राज्ञे यत्तु पुण्यमखण्डकं यथा ते प्रियात्मानः सर्वेषां च तथा बोधमार्गे यथा चित्तं सर्वेषां च तथा सर्वदा सर्वभूतानां सर्वस्यच च महामुने नाहमत्रात्मविज्ञानं तस्मात् पूर्णं निरन्तरं जाग्रत्स्वप्नं तथा वृत्तम् सौषुप्तसुखमेव च स्मरणं विस्मृतार्थस्य नास्ति चेत् कस्य जायते सत्यमस्तु तथा अशरीरं परं तथा नास्ति चेत् सुखदुःखानां सर्वेषां वेदनं कथम् सदा सर्वत्र सर्वज्ञः सर्वस्य हृदये नयेत् साक्षिभूतः समाश्रित्य को जानादिविचेष्टितं सत्यज्ञानानन्दभिन्नं स्यान् सत्यम् जानद पृथक् नानन्द्यात् पृथगानन्दम् नाप्यमानन्ददपृथक् त्वमेव परमम् ब्रह्म सत्यज्ञानादिलक्षणम् अहम् ब्रह्म परम् तत्त्वम् ज्ञात्वा त्वकिलविद्भवेद यथैक मृण्मये ज्ञाते सर्वमेतच्चराचरं यद्धैक हेममणिना भवेद ज्ञानं तथैव मीशेन ज्ञानिनाप्यखिलं जगद यथान्धकारदोषेण रज्जुः सम्यग् यथा सम्मोहदोषेण चात्मा सम्यग्न दृश्यते सर्पधारादिभिर्भेदैरन्यथा वस्तुकल्पनं व्योमादिना सरूपाद्यैरन्यधात्मा प्रकल्प्यते प्रत्यक्षमपि यद्रव्यं दुर्दर्शमिति भाषते व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तद्धा तथा हि रज्जुरुरगुक्तिकारजदं यद्धा मृगतृष्णापधा याम्बस्तृप्तिं तथा जगद हा हेष्णो द्विजा गृह ग्रहनाशात् पुनर्ध्यायान्ब्राह्मण्यं मन्यते यथा मायाविष्टस्तथा जीवो देहोहमिति मन्यते दे, मायानाशात् पुनः स्वीयरूपं ब्रह्मास्मि मन्यते क्रूरमवेक्षदे स्वरूपदर्शनचायमाया नाशन्तया विना अनादित्वं स्वरूपं तद्विलक्षणम् एकसत्यं तदा भागी विचारेण परमृषा अचोभिः सहृत्प्रेत्य सम्भवाम्यात्ममायया मायेच्छया द्विधा स्यात्पतिपत्नी सुखं जगद अष्टाविंशतिभेदैस्तु त्रैगुण्यं विद्यते पृथक् चतुरशीदिर्लक्ष्यन्ते नरनार्याकृतीनि च येषु विश्वं प्रभवति कण्ठजमायया यद्धा आधा वन्दे च सन्ध्येदे नामरूपक्रियादयः सत्यावकल्पनं काले न सन्धिपरमार्थतः यदर्थादयस्वप्ने सन्दो नैव सत्यदः तथा जाग्रदवस्थायां भूतानि न द्वैरूप्यं मायया यादिजाग्रस्वप्नपदज्ञयोः एवमेतत्परं ब्रह्मस्वप्नजाग्रत्पदद्वये सुषुप्तमचलं रूपमद्वयं पदमुच्यते मायाविचारसिद्ध्यैव विचारेण विलीयते आपादरहितासापि कल्पना कालवर्दिनी एवं तस्यात्म नादित्यं सिद्धमेकस्य सत्यजा स्तोऽस्तित्वं वसातित्वा दस्तित्वा सत्यदां तदह ज्ञानं ततोऽप्यनन्दो नः न नित्यभावाज्जादोह मा कृत्वादमृतोऽस्म्यहम् दीपवधृदये ज्योतिरहम् ब्रह्मस्मि मुक्तये इति श्रीगरुडे महापुराणे आचारकाण्डे आत्मज्ञानस्वरूपवर्णनम् नाम षट्त्रिंशदुत्तरद्विशततमोऽध्यायः अध्यायम् 237 हण्ड्रेड् अण्ड् तर्टि सेवेन् श्रीभगवानुवाच गीतासारम् प्रवक्ष्यामि अर्जुना योदिदम् पुरा पारगः सर्ववेदान्तपारकः आत्मलाभपरो नान्य आत्मदेहादिवर्जितः हीनरूपादिदेहान्तकरणत्वादिलोचनः विज्ञानरहितप्राणसुषुप्तौ हि प्रदीयते नाहमात्मा च दुःखादिसंसारादिसमन्वयाद विधूम इव आदीप्त इव दीप्तवान् वैद्युदोऽग्निरिवाकाशे हृत्सङ्गे आत्मनात्मनि श्रोत्रादी श्रोत्रादीनि न पश्यन्ति स्वं स्वमात्मानमात्मना सर्वज्ञ सर्वधर्शोचक्षत्रज्ञास्तानि पश्यन्ति यदा प्रकाशदे ह्यात्मा पडे दीपोज्ज्वलन्निव ज्ञानमुत्पद्यते पुंसां क्षयात् पापस्य कर्मणः यथा दर्शतलप्रख्ये पश्यत्यात्मानमात्मनि इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् मनो बुद्धिरहङ्कारमव्यक्तम् पुरुषम् तद्धा प्रसङ्ख्याय परं व्याप्तो विमुक्तो बन्धवैर्भवेद इन्द्रियग्राममखिलम् मनसाभिनिवेश्य च मनश्चैवाप्यहङ्कारे प्रदिष्टाप्य च पाण्डव अहङ्कारम् तथा बुद्धौ बुद्धिं च प्रकृतावपि प्रकृतिम् पुरुषे स्थाप्य पुरुषम् ब्रह्मणि न्यसेद अहम् ब्रह्मपरम् ज्योतिप्रसङ्ख्याय विमुच्यते नवद्वारमिदम् गेहम् तिसृणाम् पञ्चसाक्षिकम् क्षेत्रज्ञाधिष्ठितम् विद्वान्यो वेदसवरकविः अश्वमेधसहस्राणि वाजपेय शतानि च ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति क्षोष्ठीम् इति श्रीगारूडे महापुराणे आचार्यकाण्डे श्रीमद्भगवद्गीतासारनिरूपणं नाम सप्तत्रिंशदुत्तरद्विशततमोऽध्यायः ओम् अध्यायम् 238 हण्ड्रेड् अण्ड् तर्टि एय्ट् श्रीभगवानुवाच यमश्च नियम पार्थ आसनम् प्राणसंयमः प्रत्याहारस्तदाध्यानम् धारणार्जुनसप्तमी समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा हिंसा विरामको धर्मो ह्या हिंसा परमम् सुखम् विधिना या भवेद्धिंसा सात्वहिंसाप्रकीर्तिदा सत्यम् ब्रूयात्प्रियम् ब्रूयान्नब्रूयात्सत्यमप्रियम् प्रियम् च नानृदम् ब्रूया देशधर्मः सनातनः यच्च द्रव्यापहरणम् चौर्याद्वाधबलेन वा स्तेयम् तस्यानाचरणमस्तेयम् धर्मसाधनम् कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा सर्वत्र मैथुनत्यागम् ब्रह्मचर्यम् प्रचक्षते द्रव्याणम्यनावि तथेचया अग्रह मिथ्याम प्रयत्न वर्जेद्विधाशं मृज्जलाभ्यां बाह्य भावा दराद यद लाभतस्तुष्टि सतोष सुखलक्षण मनःसश्चैन्द्रियाणां च अयिकाग्र्यं परमं तपः शरीरशोषणं वा विकृच्छ्र चान्द्रायणादिभिः वेदान्तशतरुद्रीयप्रणवादिजपबुधाः सत्त्वशुद्धिकरं पुंसं स्वाध्यायं परिचक्षदे मुदिस्मरणपूजादिवाङ्मनकायकर्मभिः अनिश्चलाहरौ भक्तिरेदीश्वरचिन्तनम् आसनं स्वस्तिकं प्रोक्तं पद्मार्धासनं तथा प्राणस्वदेहजो वायुरायामस्तन्निरोधनम् इन्द्रियाणां विचरदां विषये श्रुत्वसत् श्री श्रीगरुडमहापुराणम् ओ अध्यायम् टू हण्ड्रेड् अण्ड् तर्टि नैन् श्रीभगवानुवाचा सन्नपिभ्रह्मतस्मात् त्वम् मरुत्काच ततो नलः अग्नेरापस्ततपृथ्वी प्रपञ्चाकृतिसूतिका ततः सप्तदशम् लिङ्गम् पञ्चकर्मेन्द्रियाणि च वाक्पाणि पादम् पायुश्चाप्युपस्थमदधीन्द्रियम् श्रोत्रम् त्वक्चक्षुषी जिह्वाघ्राणम् स्यात् पञ्चवायवः प्राणोपानः समानश्च व्यानस्तूदान एव मनोऽन्धकरणं धीश्च स्यान्मनः संशयात्मकम् बुद्धिर्निश्चयरूपा तु एतत्सूक्ष्मस्वरूपकम् हिरण्यगर्भमात्मीयसूत्रं पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डम् समजाह्यत लोकप्रसिद्धं स्थूलाख्यं शरीरम् चरणाभिमद पञ्चीकृतानि भूतानि तत्कार्यम् तस्थमेव च सर्वं शरीरजातं च जा प्राणिनां स्थूलमीरिदम् त्रिधाह्रिपरमात्मस्थं शरीरम् प्रोच्यदे बुधैः देहद्वयाभिगामी च त्वमधो जीव एकदः स्वभेदवाक्याद्ब्रह्मैव वा प्रविष्टं देहयोर्द्वयोः जलार्कवद्वदरवज्जीवत्प्राणादिधारणः जाग्रस्वप्नसुषुप्तीनां साक्षी जीवस च जाग्रस्वप्नसुषुप्त्याख्यायर्व्याधिरिक्रश्च निर्गुणः निर्गादावयवो सङ्गो नित्यशुद्धस्वभावकः परमात्मैव यज्जाग्रस्वप्नाद्यैर्यस्त्रिधामदः अन्धकरणराश्रेश्चैवान्धकरणस्थितः जाग्रस्वप्नसुषुप्तिश्च पश्यदो विकृतिः सदा फलक्रियाकारकयोर्जाग्रदादिन्वदाम्यहम् इन्द्रियैरथविज्ञानम् जाग्रस्थानमुदीरिदम् जाग्रत्संस्कारसम्भूतप्रत्ययो विषयार्थिनः स्वप्नम् सुषुक्ति करणोपसङ्खादे धियस्थिता ब्रह्मणकारणावस्थायां स्थितिकालकात्मना क्रमदो क्रमदो जीवो जाग्रदादि सपह्यदि समाध्यारम्भकाले तु पूर्वमेवावधारयेद् मुमुक्षावधः सञ्जाते विलापये विलापयेत्क्षेत्रजातं तत्क्षेत्रं परिशेषयेद पञ्जीकृतेभ्यो भूतेभ्यो भाण्डादिव्यतिरिक्तकं यथा मृदो कडो भिन्नो नास्ति तत्कार्यतस्तथा पञ्जीकृतानि भूतानि अपञ्चीकृतभूतदः दा शं संदिव्यतिरेकेण शिष्टा सूक्ष्मशरीरकम् अपञ्चीकृतभूतेभ्यो न लिङ्गम् व्यतिरिक्तकम् पृथ्व्याधारं विना नास्ति विना नास्ति च तेन सा तेजश्च वायुना नास्ति वायुखेन विना न हि यद्ब्रह्मणाचखम् नास्ति शुद्धब्रह्म विनाचखम् शुद्धभावस्तदा जाग्रस्वप्नादीनामसम्भवः जीवत्ववर्जितप्राप्तात्मचैतन्यानुरूपदः नित्यं शुद्धं बुद्धमुक्तम् सत्यं ब्रह्म द्वितीयकम् तत्त्वम् पदान्तौ शिष्टौ च उकारश्च अकारश्च मकारोय मृगद्वयः हा। ब्रह्माहमस्म्यहं ब्रह्मज्ञानमज्ञानवर्धनम् अयमात्मा परं ज्योतिच्छिन्नामानन्दरूपकः सत्यम् ज्ञानमनन्दम् हि त्वमसीदि श्रुतीरिदम् अहम् ब्रह्मास्मि निर्लेपमहम् ब्रह्मास्मि सर्वगम् योऽसवादित्यपुरुषसोऽसा वहमनाधिमद गीदासरोऽर्जुना योक्तो येन ब्रह्मणि वैलयः इति श्रीगारूडे महापुराणे आचारकाण्डे ब्रह्मगीता सारो नामेकोनचत्वारिंशदुत्तरद्विशततमोऽध्यायः ओम् अध्यायम् टु हण्ड्रेड् फोर्टि हरिरुवाच पुराणं कारुडं रुद्रप्रोक्तं सारं मया तव ब्रह्मादीनां शृण्वतां च भुक्तिमुक्तिप्रदायकं विद्याकीर्तिप्रभालक्ष्मी जयारोग्यादिकारकं य पटे शृणुयाद्रुद्र सर्ववित्सदिवं व्रजेद ब्रह्मोवाच यदि व्यासमया विष्णोः पुराणं मुक्दिदम् श्रुतं व्यास उवाच श्रुत्वैतद्गारुडम् पुण्यम् ब्रह्मास्मा नित्युवाचः दक्षनारदमुख्यादिन् ब्रह्मध्यान् हरिम् कतः मयापि तुभ्यं सूतेन पुराणम् कथितम् परम् यच्छुत्वा सर्ववित्प्राप्तकामो ब्रह्मफलं लब् भवेद विष्णुः सारद मम् प्राहगरुडम् गारुडम् तदः महासारम् धर्मकामधनमोक्षाधिदायकम् सुद उवाच शौनकप्रवरम् प्रोक्तम् पुराणम् गारुडम् तव यदब्रवीत्पुरव्याससारम् माम् गारुडे गारुडेरिदम् व्यासश्रुत्वा ब्रह्मणश्च पुराणम् गारुडं शुभं देवं देवम् ध्यायन्वेदमेकम् चदुर्धा व्यभजद्धरिः अष्टादशपुराणानि तानि मां प्राहवै शुकः इदम् तु गारुडं श्रेष्ठं मया देशौनके इदम् मुनीनाम् शृण्वदाम् मध्ये पृच्छदः सर्ववाचकम् यः पठे तृणुयाद्वापि श्रावयेद्वा समाहितः संलिखेल्लेखयेद्वापि धारयेत्पुस्तके ननु धर्मार्थो प्राप्नुयाद्धर्ममर्थार्थो चार्थमाप्नुयाद कामानवाप्नुयात् कामि मोक्षार्थो मोक्षमाप्नुयाद यद्यदिच्छति तत्सर्वम् गारूढश्रवणाल्लभेद ब्राह्मणो वेदवारस्य गन्धस्यान्नात्र संशयः क्षत्रियो क्षत्रियस्या विरक्षिता भवतीह च नान्यस्य श्रवणम् हि स्यात् पुराणं वेद संमिदम् वदेद्यदि स मूढात्मा कीर्तिहानिमवाप्नुयात् अन्यस्मै च वदेद् विद्वान् ब्राह्मणान्तरिदो यदि ब्राह्मणान्तरिदै सर्वै श्रोतव्यं कारुडं यदा विष्णुस्तदा तार्क्ष्यस्तार्क्ष्यस्तोत्राद्धरिस्तुतः गारुडम्बसुराजश्च श्रुत्वा सर्वमवापः वरुरुवाच नमस्यामि महाबाहुं कगेन्द्र हरिवासनं विष्णोर्ध्वं संस्थान विष्णोर्ध्वसंस्थानं वित्रासिदमहासुरं नमस्ते नागदर्पघ्न विनदानन्दवर्धन दैत्य सुपक्षपादनिडभदिनदैत्यनिरीक्षित परस्परस्य शावेन सुप्रतीकविभवसु कच्छपदां प्राप्तौ भ्रातरौ चैव संयुतौ यदुच्छ्रितौ योजनानि यस्तद्विगुणायदः कुर्मस्त्रियोजनोत्सोधा मण्डलः नख्याद्यौ तौ त्वया नीचौ च दुर्भुजौ च पक्षिपः परस्परकृदा चापदोषा चा परिमोजिदौ परिमोचितौ निषाददेशस्वादेन देवं भ्रूस्मा निषादीशस्तदो मुक्तस्तत्रापि ब्राह्मणस्त्वया वदारोहिणवृक्षस्य योजनानां सदा युधा शाखा भिन्ना त्वया यत्र वालखिल्याः समास्थिताः त्वया यत्नकृता कृत्वा नखस्तौ गज कच्छपौ नभस्पनिरिलालम्बे सर्वदपरिवारितौ त्वया जिदारणे देव सर्वे आहृतम् तत्पुरा सोमम् वाक्निम् निर्वाप्यकाश्यते ना गौ दृष्टिविश्रौ कृत्वा रजसादु विचक्षुषौ तीक्ष्णाग्रेण न सा विक्रवेतौ मनोहदः आहृत्यापि त्वया सोमम् नीदमेव न भक्तिदः तेन विष्णोर्ध्वजस्थानम् वाहनत्वम् गदो त्वया निशिक्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः जहार चामृतम् पात्रं शीघ्रं वै ब्रह्मसूदनः यत्र जिह्वा द्विधा भूदाः पन्नकानां द्विजोत्तमविनतामोजिदास्यात्कद्वा पूर्वजिदाे उच्चैः श्रवः स किं वर्णशुक्ल इत्येव भाषते कृष्णवर्णमहं मन्ये पूर्वदृष्टमुवाचः त्वया वज्रपहारेण पक्षमुक्तम् पुरा स्वतः दधीजवज्रशक्राणाम् माधुरर्थाय नान्यथा तस्य पक्षस्य देवेन्द्रो यदा हि दृष्टवान् तदा तव जगत्रये ध्यानमात्राद्विनश्येतु विषं स्थावरजङ्गमं पठेद्वा शृणुयाद्यश्च भुक्त्रिं मुक्त्रिमवाप्नुयाद सुद उवाच वसुराजो गारुडं वै श्रुत्वा गरुडो भगवान् विष्णुध्यायन् सर्ववाप्तवान् तदुक्तं गरुडं पुण्यं पुराणं यः पडेन्नरः सर्वकामम् अवाप्याधप्राप्नोति परमां गतिं श्लोकपादं पठित्वा च सर्वपापक्षयो भवेद यस्येदं वर्धदे गेह तस्य सर्वं भवेदिह गारुडं यस्य हस्तेदो तस्य हस्तगदो नयः यप्पडे शृणुयादे धर्मार्थकाममोक्षांश्च प्राप्नुयाच्छ्रवणादिदः पुत्रार्थो लभते पुत्रान् कामार्थो काममाप्नुयाद विद्यार्थो लभते विद्यां जयार्थो लभते जयम् ब्रह्महत्यादिना पापी पापशुद्धिमपाप्नुयाद वन्ध्या विलभते पुत्रं कन्या विन्ददि सप्तदिं क्षेमार्थो लभदे क्षेमम् भोगार्थो भोगमाप्नुयाद मङ्गलार्थो मङ्गलानिगुणार्थो गुणमाप्नुयाद काव्यार्थो च कवित्वं का च सारार्थो सारमाप्नुयाद ज्ञानार्थो लभते ज्ञानं सर्वसंसारमरुदनम् इदं स्वस्त्ययनं धन्यं गारुडं गरुडेरिदं न काले तस्य श्लोकमेकं तु यः पठेत श्लोकार्थपठनादस्य दुष्टशत्रुक्षयो ध्रुवम् सूदास्रुत्वा शौनकस्तु नौ मिष्ये मुनिभिकृत अहम् ब्रह्मेदि सन्ध्याय मोक्तोऽभूद् गरुडध्वजाद ओ इति श्रीगारुडे महापुराणे आचारकाण्डे गरुडपुराणमाहात्म्यं नाम चत्वारिंशदुत्तरद्विशततमोऽध्यायः शुभं भूयात् इति श्रीगारूडे प्रथमांश आचारकाण्डः समाप्तः ओम्